मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायम् 23 त्रि गणेशकुण्डचरितवर्णनं श्रीगणेशाय नमः देवेशा ऊचुः मयूरे तीर्थमुख्यं किं वद योगीन्द्रनायक तीर्थानां तीर्थरूपं यत्सर्वसिद्धिप्रदायकं भृशुण्ड्युवाच क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः गणेशं सर्वविख्यातं मुख्यं पूर्णं बभूवः यथा पञ्चविधं सर्वं भासदे विविधार्थतः चतुर्विधं जगत्संस्थं पञ्चमं ब्रह्म उच्यते दे। गङ्गाजयमुना देवी सरस्वती महानदी त्रिगुणरूपसंयोक्तास्ताभ्यो नद्य समुद्भवाः तुरीया सर्वतीर्थाख्या ब्रह्म कमण्डलूद्भवा ता तासां संयोग भावेतु पञ्चमं ब्रह्म उच्यते दे। तदेव तीर्थरूपेण प्रकटं संबभूवः गणेशमायया देवा सं गणेशं भूस्वानन्दमयं क्षेत्रं गणेशेन प्रकाशितं मायया तत्र विघ्नेशो भवत्स्नानार्थमुद्यतः ततोऽङ्गुश्येन पृथ्वींस भेदयामास मायया तीर्थं ब्रह्ममयं तत्र सेवार्थं तु समाययौ तदस्नानं चकारासौ सर्वं कार्यं गजाननः अक्षयं जलसंयुक्तं कुण्डं तत्र नामतस्य नाम तस्य चकारास्सौ गणेशकुण्डमादराद तस्य दर्शनमात्रेण भोक्तिं मुक्तिं लभेन्नरः जलस्पर्शादिसम्भूतं पुण्यं वक्तुं न शक्यते साक्षात् ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमण्डलूद्भवा तुरिया सर्वतीर्थानां ज्ञातव्यं शास्त्रसम्मतं भगीरथीतृतीया च स्नानेन स्वर्गदायिनी स्वर्णादीक्षा समाख्यादा विशेषेण महेश्वराः तदा सरस्वती प्रोक्ता द्वितीयपदधारिणी त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता यमुना च तदख्यादा स्थूलरूपा महानदी सप्तभिर्दिवसैः साक्षात् जन्तूनां स्वर्गदा मदा अन्याना विधास्ताभ्यः कथनं नैव अधः संक्षेपदप्रोक्तम् माहात्म्यं पञ्चसम्भवम् अत्रेधिः सकं वक्ष्ये शृणुध्वं च्येकचेतसः गुर्जरे पापकर्मादुराजा भद्रो भवत्पुरा स्वधर्मं सपरित्यज्य मां सस्त्रीमद्यलालसः यथेच्छं वर्दयमासनाना नानापापरायणः एकदा मध्यसंयुक्तपुत्रीं दृष्ट्वा स दुर्मधिः एकान्ते बुभुजेतां स हहाकाररवाकुलाम् इत्यादि विविधान्येव चकारदेव सत्तमाः पापानि तेषु किं ब्रूयां वक्तुं त्रासप्रवर्तते मृदं तं यमदूताश्च गृह्य निन्युर्यमालयं बद्ध्वा सन्ताड्य तत्रैकं चित्रं पूर्णं बभूवः गच्छता तेन सन्दृष्टं विमानं सूर्यसन्निभं गणेशकुण्ठतीर्थस्य द्रष्टा तच्च समाश्रितम् तस्याङ्गवायुना स्पृष्टो भद्रः पापपरः परः पापहीनो बभूवापि जगाम यममन्दिरं यमेन नरयोन्यां स संक्षिप्तो वैश्ययो निजः बभूव देवधर्माख्यस्वधर्मनिरतः सदा स्वर्गात्पतनकाले सस्मार कुण्डमुत्तमं तेन संस्कारयोगेन मयूरेशं समाययौ दृष्ट्वा गणेशकुण्डं स जातिस्मरो बभूवः ततः क्षेत्रं समाश्रित्य कुण्ठपूजा परो भवेद् ममारकुण्डसान्निध्ये ब्रह्मभूतो बभूव एवम् संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः देवेशा ऊचुः गणेशकुण्डद्रष्टा स कथं जातो महामदे किं जादिर्यो वद आश्चर्यं भासते परं भृशुण्ड्य उवाच चाण्डालः पापात्मा नित्यं पापपरो भवद कञ्चिद्रव्ययुतं दृष्ट्वा तत्पृष्ठगो बभूवः स आगतो मयूरशं कथयामासमानवान् जखानद्रव्यलोभी चाण्डालो मानवान सदा समाययौ मे सान्निध्यमधुनात्र विशेषतः मारणायन सन्देहस्तच्छ्रुत्वा स पपालः लोकायात्रारथा सर्वे नैव मत्ताडने रदाः फलता तु दृष्टं गणेश्वरं महद क्षेत्रं त्यक्त्वा गदं दूरे ममारविषयप्रियं भोगबुद्धियुदं दुष्टं निन्युरिन्द्रपुरे मराः गणेशकुण्ठजेनैव दर्शनेन स संशयः पापानि विलयं यान्ति भुक्तिर्मुक्तिस्ततो भवेद अन्यनुदेवेशाश्चरितं कुण्ठसम्भवं वैश्य कश्चित् समायादो द्रव्यलोभी मयूरके प्रवेशेनाश्य पापानि तं त्यक्त्वा बहिरञ्जसा स्थितानि सोऽपि शुद्धस्सन् बभ्रामद्रव्यकारणात् तत्र यात्रापरालोका अवदंस्ते परस्परं गणेशकुण्डमाहात्म्यं सोऽपि शुश्रावमन्दधिः विचारमकरोचित्ते दर्शनेनात्र लभ्यते भुक्तिर्मुक्ति किमेवेदं वचनं सत्यगं भवेद अदोऽहं विक्रयार्थं तु भवामि तत्र तदा दर्शनमेव मे कुण्डस्यात्र भविष्यति इति विचार्य खाद्यानि गृह्य कुण्डगदो भवत दधारमनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो पुनश्च समयूरेशं त्यक्त्वा स्वगृहगोऽभवद तत्र स्वल्पेन कालेन ममार तदो ततोऽभिमानमारुह्य शुक्लगत्या महेश्वराः मोक्षं जगाम वैश्यश गणेशकुण्डदर्शनाद अन्यच्चशृणुत प्राज्ञा इतिहासम् पुरातनम् शूद्रौ मेखमणि सञ्ज्ञौ मानवे सम्बभूवधुः सेवार्थम् पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ स काश्याम् प्रेमसंयुक्तो यात्रार्थम् प्रजगामः तेननीतौ स्वसेवार्थम् सपुत्राव पुत्रौ शूद्रयो निजौ मार्गे ममारैव तस्य पुत्रो ददाहतं तत्र वन्द्यो द्विजकोऽपि चकारास्ति प्रसञ्चयम् मणिपप्रच्छतं विप्रं कुत्रास्तित्वं त्वं प्रणेष्यसि स उवाच गणेशस्य क्षेत्रे कुण्ठं महाद्भुतं तत्रास्तित्यागमात्रेण पञ्चमं लभते पदम् अधो मेस्तिपितुस्तत्र शूद्र नेष्यामि निश्चितं तच्छ्रुत्वा सोऽपि शूद्रस्यास्ति सञ्चयं चकारः काश्यां दुःखयुधो त्यक्त्वा मम रमणिरेव तस्यास्ति सञ्चयं चक्रे तस्य पुत्रो महेश्वराः तज्ज्ञात्वा क्षत्रियस्थं सनिर्भत्स्य बहुधा जगौ काशीं त्यक्त्वा मयूरे किमस्ति त्यागं करिष्यसि उवाच पिदुराज्ञास मया मान्या निरन्तरं एतस्मिन्नन्तरे तत्र ब्राह्मणशास्त्रविद्ययौ णम्यविशेषेण पप्र च क्षत्रियोद्भवः दुराग्रकं स्वशूद्रस्य दृष्ट्वा सर्वं विधानदः ज्ञात्वा वृत्तान्तमेधस्य तमुवाच जनार्दनः ब्राह्मणो वेदसारज्ञः क्षत्रियं शास्त्रजम्बजः जनार्दन उवाच चतुर्विधानि तीर्थानि तथा क्षेत्राणि क्षत्रिय पञ्चमं गणराजस्य क्षेत्रं तीर्थं च कीर्त्यते ब्रह्मणस्पतिनामासौ गणेशो वेदवादतः तस्य लीलादिकं सर्वं नानाब्रह्ममयं बभौ काश्यां ये तत्र नयन्दिदु अन्यक्षेत्रस्य गास्तद्वन्नयन्ध्यस्ति मयूरके ततः संशयहीनः स सम्पूज्य प्रणनामः जनार्दनम् स्वगेहम् स शूद्रावस्ति समागृह्य प्रजग्मदुः गणेशकुण्ठं सम्पूज्य त्यक्त्वा तावस्ति सञ्चयं यथा शास्त्रं विधानेन यात्रां चक्रदुरादराद स्वगृहं जग्मदुशूद्रौ देवेशाशृणुता परम् अस्तित्यागप्रभावेणमेकं नेदुं ययुर्गणाः शङ्करलोकसंस्तं तं गृह्य स्वानन्दमाययुः मणिं कैलासगं ते दु ब्रह्मभूतौ प्रचकृ एवं नानाजनास्तत्र सिद्धिं प्राप्ता विशेषतः तत्र किं कथयामिह वक्तुं केन प्रशक्यते यदद्गणेशकुण्डस्य माहात्म्यं शृणुयान्नरः श्रावयेत्स लभेदेवा ईप्सितं फलमुत्तमम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म महापुराणे षष्ठे खण्डे विकटचरिते गणेशकुण्ठचरितवर्णनं नाम त्रयोविंशोऽध्यायः ॐ